ततः श महता भर्सय पराणस निभ प्रहारेरजघ्न व्यूढ़ोरस्को दीर्घभुजौ निुद्धकुशलाुभ बाहुभ स मयसै परघैरी व कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेहनी अनाहारं द्विवारात्रमविश्रान्तमवर्तत तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनो चतुर्दश्यां निशायाम् तो निवृत्तोमागधः क्लमात् तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः उवाच भीमकर्माणं भीमं सम्बोधयन्निव क्लान्तः शत्रुर्नकौन्तेय लभ्यः पीडयितुं रणे पीड्यमानो हि कार्त्स्येन जह्याज्जीवितमात्मनः तस्मात् तेनैव कौन्तेय पीडनीयोजनाधिपः सममेतेन युध्य स्वा बाहुभ्याम्भरतर्षभा एवमुक्तः स कृष्णेन पाण्डवः परवीरः जरासन्धस्य तद्रूपम् ज्ञात्वा जेतुम् जरासन्धम् वृकोदरः संरम्भम् बलिनाम् श्रेष्ठो जग्राहकुरुनन्दनः इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासन्धक्लान्तौ त्रयोविंशोऽध्यायः